अथ एकादशाधिकद्विशततमोऽध्यायः नारद उवाच जित्वा तु पृथिवीम् दैत्यौ निःसपत्नौ गतव्यथौ कृत्वा त्रैलोक्यमव्यग्रम् कृतकृत्यौ बभूवतुः देवगन्धर्वयक्षाणाम् नागपार्थिवरक्षसाम् आदाय सर्वरत्नानि परान्तुष्टिमुपागतौ यदा न प्रतिषेद्धारस्तयोः सन्देह केचन निरुद्योगौ तदा भूत्वा विजह्राते मराविव स्त्रीभिर्माल्यैश्च गन्धैश्च भक्ष्यभोज्यैः सु पुष्कलैः पानैश्च विविधैर्हृद्यैः पराम् प्रीतिमवापतुः अन्तःपुरवनोद्याने पर्वतेषु वनेषु च यथेत्सितेषु देशेषु विजह्राते मराविव ततः कदाचित् विन्ध्यस्य प्रस्थे समशिलातले पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः दिव्येषु सर्वकामेषु समानीतेषु तावुभौ वरासनेषु संहृष्टौ सहस्त्रीभिर्निषीदतुः ततो वादित्रत्याभ्यामुपातिष्ठन्ततो स्त्रियः गीतैश्च स्तुतिसंयुक्तैः प्रीत्या समुपजग्मिरे ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती वेषं सा क्षिप्तमाधाय नदीतीरेषु जातान् सा कर्णिकारान् प्रचिन्वती शनैर्जगामतम् देशम् तौ महासुरौ